दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन् प्राणभृतां वसां तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः बभूवमुदितस्तृप्तः परां निर्वृतिमागतः तथा सुरमयं नाम तक्षकस्य निवेशनात् विप्रद्रवं तं सहसा ददर्शमधुसूदनः तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः शरीरवाञ्जटी भूत्वा नदन्निवलाहकः विज्ञायदानवेन्द्राणां मयं वै शिल्पिनां वरम् जिघां सुर्वासुदेवस्तं चक्रमुद्यं यधिष्ठितः स दृष्ट्वा दिधक्षम् तम् च पावकम् अभिधावार्जुनेत्येवम् मयस्त्राहीति चाब्रवीत् तस्य भीतस्वनम् श्रुत्वा मा भैरिति धनञ्जयः प्रत्युवाचमयम् पार्थो जीवयन्निवभारत तन्न भेतव्यमित्याहमयम् पार्थो दयापरह तं पार्थेनाभये दत्ते मयम् न हन्तुमैच्छद् दाशार्हः पावको न च दिनानि दश पञ्च च ददाः कृष्णपार्थाभ्याम् रक्षितः पाकशासनात् तस्मिन् वने दह्यमाने षडग्निर्नददाः च अश्वसेनम् मयम् चैव चतुरः शार्ङ्गकांस्तथा इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि मयदानवत्राणे सप्तविंशत्यधिक द्विशतमोध्याय